मुद्गलपुराणं खण्डं नैन् योगचरितम् अध्यायं टेन् विभूतियोगो नाम दशमोऽध्यायः श्रीगणेशाय नमः दक्ष उवाच विभूतिर्वदयोगीश गणेशस्य महात्मनः या ज्ञात्वा ताः समाराध्य गणेशज्ञो भवेन्नरः मुद्गल उवाच अपारा गणनाथस्य विभूतयो न संशयः तानचकुदा कथयितुं भवन्ति शङ्करादयः क्षणे क्षणे गणेशानो नानाखेलपरायणः विभूतिभिर्जगत्सर्वं भावयदि परात्परः लोकेषु तत्त्वमुखेषु जगत्सुब्रह्मसुप्रभोः ये सर्वे ते सर्वे विभूतिपदधारकाः कल्पे कल्ये विभूतीनामवतारा असङ्ख्यकाः गणेशस्य तथा दक्ष तान्वक्तुं कः क्षमो भवेत् अतः संक्षेपतस्तुभ्यं कथयिष्यामित्ताशृणो विभूतिगणनाधस्य नानासिद्धिप्रदायिनीः जगत्सुब्रह्मसुप्राज्ञयोगरूपो गजाननः कथं न भिन्नभावाख्यं वरुतदे वर्णयाम्यहं मायाभ्यां संयुधसोऽपि नानावेषप्रधारकः अयोगिनामिदं कृद्यं सत्यं संभासदे सदा मायायुक्तप्रभावेण किं किं गजाननस्य च न संभवेदहं मायां समाश्रित्यवदामि ताः कलां साकलया युक्ता कलां श्यां शाकलात्मकाः तेषा मं शधरा ये ते जगादत्तां शृणुष्व त्वं विभूतिः परमाद्भुदाः श्रीगणेश उवाच पूर्णो योगेषु सर्वेषु चित्तरोधमयः परः मायाहीनप्रभावाणामयोगोऽहम् महामुने स्वानन्दो निजभूतेषु तुर्येष्वव्यक्तसंदः आनन्दसमभावेषु जीवेष्वात्माहमञ्च स नानाभेदेषु ब्रह्माहमसद्रूपप्रधारकं सत्येषु सांख्यरूपोऽहं बोद्धखेलकरेषु च देहाभिमानयुक्तेषु सतैकोऽहं महामदे देहेषु बिन्दुरूपोऽहं चेदनासु गुणेश्वरः कोशेष्वानन्दकोशोऽहं विज्ञानं सूक्ष्मजाधिषु विवेकेषु मनश्चाहं चालकेषु समीरणः स्थूलेषु समष्टिषु तथेश्वरः व्यष्टिषु प्राज्ञरूपोहमणुषु मनुषुच महाविराट इन्द्रियेषु मनश्चाहम्भूतेष्वाकाशसञ्ज्ञितः तन्मात्राणामहं शब्दो ज्ञादाहं देवतासु च तत्त्वेषु विविधेष्वेव महस्तत्त्वमहं परं गुणेषु गुणपोहं तु पालकेषु जनार्दनः हरः संहारकर्तॄणां स्रष्टॄणां प्रपितामहः कर्मणामर्यमात्माहं मोहकानां च शक्रिका देवानां मखवाहं तु आदित्यानां विनायकः तेजसां भानुरूपोगमममृतेषु विधुः परः अग्निप्रतापदेष्वेव धर्मसमप्रवर्तिषु यमो यमवतां चाहं रक्षसां निरुधिस्वयम् जलेशु वरुणोंहं तो बलवत्सुसमीरण निधीना धन दादाहद्राण शंकर कामोधनुर्धराणिर्भोगु भोगदा नागेशाह शर्पाण तक्षक स्वयं नागानां वास्तुकिर्नाम जम्भुर्द्वीपेषु सर्वतः स्वादूदकसमुद्राणां पर्वतेषु हि मेरुकः पितॄणां यमरूपोऽहं वृक्षेषु शमिकामदा देववृक्षेषु मन्दारस्तरूणां पामदायकः देनुनाम काम दे दूर्वा धेनुर्यादूर्वाचौषधिषु प्रभुः पक्षिषु मयुरोहं मयूरोऽहम् मृगाणाम् सिंहरूपधृक मासानां श्रावणश्चाहम् चौराणाम् मूषकाधिपः वाहनेष्वश्व वाहोऽहम् सिद्धिरैश्वर्यदेषु च विद्यासु बुद्धिरूपोऽहं चित्तं प्रकाशकारिणाम् अहं मनश्च वेदानां मोह देष्वभिमानकः नराद्भिपो नराणां तु वर्णेषु ब्राह्मणो ह्यहम् आश्रमेषु तुरीयोऽहं पोषकेषु गृहस्तकः त्यागिनामवधूदोघं तिथीनां च चतुर्धिका प्रजापदिषु दक्षोघं ब्रह्मर्षिषु भृगुस्तधा नारदो दत्तो दत्तोऽवधूतरूपिणां कपिलस्तत्त्वविज्ञानां योगिनां शुक एव यः जनकोहं विदेहानां निःसङ्गेषु महामुने सनकादय एवाहं ज्ञानिनां बादरायणः वसिष्ठकर्मकरुतॄणां गाणपत्येषु मुद्गलः भृशुण्डी चैकनिष्ठेषु ब्रह्मिष्ठानां बृहस्पतिः अन्नानां तिलरूपोऽहं गव्यानां कृतमञ्जसा मधुसर्वरसानां च मकरो जलजात्मनां कौमण्डलीनदीनां च तीर्थेषु गाणपं क्षेत्राणां मयूरक्षेत्रं काशिराजस्सु बुद्धिषु मयूरेषु अवताराणां गार्ग्य उपासकात्मनां ध्याननिष्ठेषु सर्वेषु गृत्समदोहमेव च सुबोद्धौ दैत्यजातीनां ज्ञानारिर्द्वेषकारिणां दुर्जयेषु मनश्चाहं वर्णेष्वोङ्कार एव सः शुक्रोऽहं भाविकेष्वेव त्रिशिदाशुद्धचेदसाम् उपदेशप्रदातॄणां याज्ञवल्क्यः प्रतापवान् पौराणिकेषु सुतोऽहं श्रोतॄणां शौनको मुनिः सेनानीनामहं स्कन्दो विष्णोर्यशस्विनामहम् आपेष्वनृतरूपोऽहं कलहो भेदधारिणां प्राप्तिषु लोभरूपोऽहं मणीनां चिन्तितार्थतः ज्ञानं पवित्रं भावानां सामगायकधर्मिणां वेदेष्वधर्वसंज्ञोऽहं शस्त्रेषु परश्युः परः निर्लेपानामहं साक्षी राजश्रीशुगजस्तथा विषयोभ्रान्तिदानां च रम्भाह्यप्सरसामहं गन्धर्वाणां चित्ररथो वैद्यानां वैद्यनायकः धन्वन्धरिस्तु भिषजां समुद्रसरसात्मनाम् श्रोतसाञ्चाह्नविप्र मन्त्राणामेकवर्णजः सूक्तेषु ब्राह्मणस्पत्यम् यज्ञेषु ज्ञानरूपधृक प्राणेषु तु समानोऽहम् शक्तिशक्तिमदामहम् बृहदारण्यकम् विधि नानोपनिषदाम् योग शास्त्रेषु योगशास्त्रम् च पुराणेषु जमौद्गलम् अरण्यानां महारण्यं दण्डकाख्यमहं परं नियन्द्रीणामहं दण्डो मायासं भावकारिणां याज्ञवल्क्यस्य स्मृतिरेव परामदा गायत्री छन्दसां विप्रस्वानन्दो व्याकरणमं गभूदेषु कलासु योगदाह्यहं निेषु तथा काव्यो वृषभो भूमिधारिणां नन्दिकेषो गवां चाहं नग्नो भैरवभाविनां एवं नानाविधाकारा विभूतिर्गणपश्यया कथितुं नैव सारा सङ्कथिता मया यद्यश्रेष्टतमं विप्र सा संशयः लोकेषु गणराजस्यतां भावय विशेषतः मुद्गल उवाच एवमुक्त्वा गणेशानो प्रजापदे। नारदस्तं प्रणम्यैव जगाद तादृशो भवत य इमां श्रावयद्दक्ष शृणुयाद्वा प्रयत्नतः नमोऽहं सलभेत् क्वापि ज्ञात्वा सामर्थ्यजम्महः अपारमहिमायुक्ता जीवाश्च परमेश्वराः ते सर्वे विघ्नराजस्य विभूदि पदधारकाः एवम् ज्ञात्वा गणेशानम् ये भजन्ति मनीषिणः ते सर्वे ब्रह्मभूताश्च भविष्यन्ति प्रजापते ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन विभूतियोगो नाम दशमोऽध्यायः यदि योगगीतासूपनिषत्सु सुगमासु षष्ठोऽध्यायः ओम्